अनवध्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्मतत् शत्रुदेहमुपाक्रम्य तम् कामम् प्राप्नुयामहे एको ह्येव श्रियम् विभर्ति पुरुषर्षभः अन्तरात्मेव भूतानाम् तत्क्षयम् नैव लक्षये अधवैनम् निहत्याजौ शेषेणापि समाहताः प्राप्नुयाम ततः ज्ञातित्राणपरायणाः युधिष्ठिर उवाच कुष्णकोऽयम् जरासन्धः किंवीर्यः किम् पराक्रमः यस्त्वाम् स्पृष्ट्वाग्निसदृशम् न दग्धः यथा कृष्ण उवाच शृणुराजम् जरासन्धो यद्वीर्यो यत्पराक्रमः यथा चोपेक्षितोऽस्माभिर्बहुसः कृतविप्रियः अक्षौहिणीनाम् तिसॄणाम् पतिः समरदर्पितः राजा बृहद्रथो नाम मगधाधिपतिर्बली